गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् तर्टीन् क उवाच पदातयः पुरो यान्ति कम्पयन्तो वसुन्धरां विकरालमुखावीरासिन्धूरारुणमस्तकाः केिन्नीब्धकव मुक्त सुदारुणा के जिन्बद्धक्येजिचंदनचर्चिताहरणुविशारदा पुरोगजमत्ता धादुचि इवाद्रय दीर्घदन्ताविभान्ति स्म भूषणैर्विविधैरपि खण्डानादैर्जनं सर्वं बधिरं चक्रुरञ्जसा चूर्णयन्दो गिरीन्वक्षान् ययुशुण्ढागणं प्रहारतः लसत्कुम्भापदा काढ यश्चित् त्रध्वजविराजिताः ततो खुराखातैश्चूर्णयन्दो वसुन्धरां एषितैर्नादयन्दो वै गगनं च दिशो दश सुवर्णरत्नमुक्ताभिर्भूषिता व्योमचारिणः अधिष्ठिदा महायोद्धैश्च तनुत्रण प्रशो नानाशस्त्रधर परमर्द ततस्तुरधिनो जगमुशस्त्रस्त्रुखा दिन सखितायुर्गज सारथिर्मृधे मुक्तामणिमया माला वहन्दो गन्धमालिनः धनुस्कन्धा स्तूणभृदो भल्लहस्तास्सखगाः शस्त्रप्रभाभिर्नेत्राणि चान्दयन्दो जनस्यः एवं सेनासमायादा गर्जयन्ती दिशो दश भूधराजेन सा तदो भीत्या पलायितौ तावो जदुः तवाज्ञया दग्धं च नगरं बहु प्रतापं नौ समाकर्ण्य सिन्धुस्वयमुपागतः चतुरङ्गां च मूं गृह्यनाना शस्त्रास्त्रधारिणीं तदो भीत्या भवन्तं च समायातव महाबल क किन्तु सैन्यसमुद्रोधवदतोमेधयोः ददृशे पूर्वादिग्भागे दुस्तरशस्त्रयोधिभिः तदोकर्षयुतो ज्ञात्वा दैत्यवृत्तं समासदः नीलकण्ठं समारुह्य मयूरेश्यो आयुधानि च चत्वारि चतुर्दोषु प्रगृह्य सः सन्नद्धा गणकोट्यस्ता धनुर्बाणाशिपाणयः परिवार्य स्थिता देवं नीलकण्ठं वृषस्थितम् मुनीश्वरास्तु वन्दि स्म उभयो सेनयोर्वाद्यघोषकोलाहलो महान् परस्परं सम्पदं तां वीक्ष्य सेने सुविस्मिते असङ्ख्यादम् बलं वीक्ष्य तुतोषसमयूरराट यदुक्तं नन्दिना पूर्वं तद्दृष्टं सर्वमेव ततो नन्दी मयूरेशं नत्वा गर्जन् मुहुर्ययौ नभो मार्गेण सैन्येषु चिच्छेदवीरमस्तकान् शृङ्खाखादेन महदाहयमस्याहनदृढम् शीघ्रमुड्डीय मयूरेशं यथाक्षतः आश्चर्यं च क्रीरे सर्वे गणाः साध्विधि शंसिरे छत्रं च पादयामास नन्दी शृङ्गप्रहारदः पदितेष्वे च छत्रे च सिन्धुरश्वान्तरे गदः धारयामास च ददाच्छत्रमन्यन्महाधनम् आश्चर्यं परम मे ने न चुक्रोध सुर चुक्रोध सीराव गदो वह पराक्रम यकर्ण्य तद्यम कौस्तू मैत्र अमौत नमस्कृत्य सनया चुंग मा चिन्तां कुरु सिन्धो त्वं विकास्यावो रिभुक्षयम् अन्यधानमुखं नाथ दर्शयाभक्कथञ्चन एवमुक्त्वा प्रचलितौ परसैन्यनिबर्हणौ पदातीनां गणायादा ब्रह्माण्डस्फोटतत्पराः नुब्जदामिच्छ वो नेदुम्भूगोलं रणदुर्मदाः कौस्तुभोधमयूरेशं यादो मैत्रश्च पातितुं शरवर्षै परिच्छाद्य यादावस्यान्तिकं यदा वीरभद्रस्तदा यादो योद्धुं स असङ्ख्यसेनयायुक्तौ गर्जयन्तौ दिशो दश निजघ्नतुरुभौ रोषा सिन्धुं नानाप्रहारदः कौस्तु भोऽप्यधमैत्रश्च परस्परं सह मारयस्वे दिव्यहरन्तः परस्परम् शस्त्रस्त्रैरनेकैश्चाभ्याता शरब्रातर्भिंडी पालखर्मुसलरना सेनाचरा जघ्नुपरस्पर वधेस वहा नु सर्वशस्त्रु शरषु च परस्पर मल्लुद्धम प्रचकृस्ते जीवग्राकममारयन् व्यसवः पदिदा के जेद्वे मूरक्तं मुखाद्बहु पादं पादेन जग्नुस्ते स्कन्दं स्कन्देन तापरे पृष्टं पृष्टेन हस्तं हस्तेन चापरि मस्तकं मस्तकेनैव कूर्परं कूर्परेण च पदिदापात्यमानश्च मृदा भग्नाश्च चूर्णिताः खिन्नकण्ठाभिन्नभुजा भग्नजङ्घोरु बाहवः एवं नष्टेषु सैन्येषु सिन्धुसेनाजयं ययौ जयशब्दैस्तु यमानैर्बन्दिभिर्वाद्यनिस्वनैः सिन्धुदैत्येश्वरं यादौ अमात्यौ मित्रकौ स्तु भौ मयूरेशंसमायातौ वीरभद्रषडाननौ तदौस्तमगमत्सूर्यस्तदो युद्धमुपारमत अपरे निश्च युध्यन्द देवसैन्येन दानवाः पलायमानां तां सेनां निजघ्नुःशरसञ्जयैः पुनरावेशमापन्नौ वीरभद्रषडाननौ गर्जन्तौ गर्जयन्तौ च गगनं च दिशो निघ्नन्तौ रिपुसेनां तां निदर्हन्तौ कृदान्धवद अन्धकारे महाघोरे न प्राज्ञायद किञ्चन स्वान्परानपि जघ्नुस्ते युध्यमाना महाबलाः भग्नायां सिन्धुसेनायां चक्रदुर्जयनिस्वनम् दैत्यामात्यौ पुनर्यादौ मरणे कृतनिश्चयौ प्रेरयामासतुरुभौ निजाश्वौ परवाहिनीं किरन्दौ शरजालानि जघ्नधुः तदशडाननो तदषडाननो दृष्ट्वा तयोरधि पराक्रमं मुष्टिखादेन तौ हत्वा निज सेनामगाज्जवाद मित्रस्तु भूमिमगमध्वमन् रक्तम् मुखाद् बहु तथाविधं च दृष्ट्वा कौस्तु भो योद्धुमागतः षडाननमधो रोषान्निजघ्ने करवालधः तस्मिन्मूर्च्छा मवाहेदु वीरभद्रप्ययु्यत कौस्तुभ प्राकनद्रोषाचराखादरनेकश सोपितन मुष्ट भूमौ चैनमखादयत हदे तस्न्नता सौ वीरभद्रो महाबल पलद्यसा खे मिच कौस्तुभे तमुदन्तं शस्त्रहदास्रवन्दो रुधिरं बहु न्यवेदय दैत्यराजसिन्धवे देवशत्रवे वाचा विस्पष्टया दुःखाच्चस्त्राकादकृदाद्भृशम् जयमाकाङ्क्षदे नित्यं मित्रकौस्तुभयोर्भृशम् इति श्रीगणेशपुराणे क्रीडाखण्डे मित्रकौस्तुभवधो नाम त्रयो दशाधिकशततमोऽध्यायः ओ